मार्कण्डेयपुराणम् अध्यायं सेवेन्टी नैन् मार्कण्डेय उवाच आदित्यावसवो रुद्रा साध्या विश्वे मरुद्गणाः भृगवोङ्गिरसश्चाष्टौ यत्र देवगणाः स्मृताः आदित्यावसवो रुद्रा विज्ञेया कश्यवात्मजाः साध्याश्च मरुतो विश्वे धर्मपुत्रगणाश्रयः भृगोऽस्तु भृगवो देवाः पुत्रा येष सर्गश्च मारीचो विज्ञेयः साम्रताधिपः ऊर्जस्वी नाम चैवेन्द्रो महात्मा यज्ञभागभुक अधीता नागदा ये च वर्तन्ते साम्प्रतञ्जये सर्वे ते त्रिदशेन्द्रास्तु विज्ञेयास्तुल्यलक्षणाः सहस्राक्षः कुलिचिह्नः सर्व एव पुरन्तराः मघवन्दो वृषाः सर्वे श्रृंगिण गजगात क्रतव सर्वे भूदिभव धर्माण शुद्धराधिपत गुणा भूतभव्य भवन्नाधृणुच द्विज भूर्लोको स्मृद भूमिरक्ष दिवस्मृतं दिव्याख्याश्च तथा स्वर्गस्त्रैलोक्यमिति गद्यते अत्रिश्चैव वसिष्ठश्च काश्यपश्च महानृषिः गौतमश्च भरद्वाजौ कौशिकः। तथैव पुत्रो भगवान् नृचीकस्य महात्मनः जमदग्निस्तु सप्तैते मुनयोत्र न धान्तरे इक्ष्वागुर्नाभगश्चैव दृष्टश्चर्यादिरेव च विख्यादो नाभागारिष्टयेव च करुषश्च पृषध्रश्च वसुमान् लोकविश्रुतः मनो मनोर्वैवस्वतस्यैते नवपुत्राः प्रकीर्तिताः वैवस्वतमिदं ब्रह्मन् कथितं दे मयान्तरम् अस्मिन् श्रुते नरः सद्यः पठिते चैव सत्तमा मुच्यते पादकैसर्वैः पुण्यञ्च महदश्नदे इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे वैवस्वदकीर्तनं नामै कोनाशीतितमोऽध्यायः ओ